अथ चतुःसप्ततितमः सर्गः अथ रात्र्याम् व्यतीतायाम् विश्वामित्रो महामुनिः आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् विश्वामित्रे गते राजा वैदेहम् मिथिलाधिपम् आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम् अथ राजा विदेहानाम् ददौ कन्याधनम् बहु गवांशतसहस्राणि बहूनि मिथिलेश्वरः कम्बलानाम् च मुख्यानाम् क्षौमान् कोट्यम्बराणि च हस्त्यश्वरथ पादातम् दिव्यरूपम् स्वलङ्कृतम् ददौ कन्या शतम् तासाम् दासीदासमनुत्तमम् हिरण्यस्य सुवर्णस्य मुक्तानाम् विद्रुमस्य च ददौ राजासु सम्भ्रष्टः कन्याधनमनुत्तमम् दत्त्वा बहुविधम् राजा समनुज्ञाप्यपार्थिवम् प्रविवेशस्व निलयम् मिथिलाम् मिथिलेश्वरः राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ऋषीन् सर्वान् पुरस्कृत्य जगामसबलानुगः गच्छन्तम् तु नरव्याघ्रम् सर्षि घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ताम् दृष्ट्वा राजशार्दूलोऽवसिष्ठम् पर्यपृच्छत असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः किमिदम् मनो मम विषीदति राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यम् महा ऋषिः उवाच मधुराम् वाणीम् श्रूयतामस्य उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्युतम् मृगाः प्रशमयन्त्येते सन्तापस्त्यज्यतामयम् तेषाम् संवदताम् तत्र वायुः प्रादुर्बभूवः कम्पयन्मेदिनीम् सर्वाम् पातयश्च महाद्रुमान् तमसा संवृतः सूर्यः सर्वेनावेदिशुर्दिशः भस्मनाचावृतम् सर्वम् सम्मूढमिव तद्बलम् वसिष्ठर्षयश्चान्ये राजा च स सुतस्तदा स सञ्ज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम् तस्मिंस्तमसि घोरे तु भस्मच्छन्ने वसा च मूः जटामण्डलधारिणम् भार्गवम् राजा राजविमर्दनम् कैलासमिव दुर्धर्षम् कालाग्निर्मधुःसहम् ज्वलन्तमिव स्कन्धे चासज्य परशुम् धनुर्विद्युद्गणोपमम् प्रगृह्य शरमुग्रम् च त्रिपुरघ्रम् यथाशिवम् तम् दृष्ट्वा भीमसङ्काशम् ज्वलन्तमिव पावकम् वसिष्ठप्रमुखा विप्राजपहोमपरायणाः सङ्गतामुनयः सर्वे सञ्जल्पुरथो मिथः कच्चित्पितृवधामर्षी क्षत्रस्योत्सादनम् भूयो न खल्वस्य चिकीर्षितम् एवमुक्त्वार्घ्यमादाय भार्गवम् भीमदर्शनम् ऋषयो राम रामेति मधुरम् वाक्यमब्रुवन् प्रतिगृह्यतु ताम् पूजामृषिदत्ताम् प्रतापवान् रामम् दाशरथिम् रामो जामदज्ञोऽभ्यभाषत इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्सप्ततितमः सर्गः